पूर्णे शतसहस्रे तु विप्राणाम् स्थापिता तत्र संज्ञाभूच्छङ्खोऽध्मायत नित्यशः मुहुर्मुहुः प्रणादस्तु तस्य शङ्खस्य भारत उत्तमम् शङ्खशब्दम् तम् श्रुत्वा विस्मयमागताः एवम् प्रवृत्ते यज्ञे तु दधिकुल्याश्च दद्रुषु सर्पिषाञ्च हृदाञ्जनाः जम्बूद्वीपो हि सकलो नानाजनपदायुतः राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाकृतौ राजानः स्रग्णस्तत्र सुमृष्टमणिकुण्डलाः विविधान्यन्नपानानि लेह्यानि विविधानि च तेषाम् ब्राह्मणेभ्यो ददुस्मते एतानि सततम् भुक्त्वा तस्मिन् यज्ञे द्विजातयः पराम् प्रीतिम् ययुः सर्वे मोदमानास्तदा भृशम् एवम् समुदितम् सर्वम् बहुगोधनधान्यवत् यज्ञवाटम् नृपा दृष्ट्वा विस्मयम् परमैययुः ऋत्विजश्च यथा राजसूयम् महाक्रतुम् पाण्डवस्य यथा कालम् सर्वयाजकाः व्यासधौम्यादयः सर्वे विधिवत् षोडश द्विजः स्वस्वकर्माणि चक्रुस्ते पाण्डवस्य महाकृतौ नाषडङ्गविदत्रासीत् सदस्यो नाबहुश्रुतः नाव्रतो नानुपाध्यायो न ना पापो न द्विजः न कश्चित् दरिद्रो क्षुधितो दुःखितो वापि प्राकृतो वापि मानुषः भोजनम् भोजनार्थिभ्यो दापयामास सर्वदा सह महातेजा सततम् राजशासनात् सस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः दिवसे दिवसे चक्रुर्यथा शास्त्रार्थ ब्राह्मणा वेद कथाश्चक्रुश्च सर्वदा रेमिरे कथान्ते तु सर्वे तस्मिन् महाकृतौ देरन्य ये उरगैर्दिव्यमुष विद्याधर गणर्ण पांडव से महात्मन सराजसूय शुशुभे धर्मराजस्य से धीमता गंधर्वगण सकर्ण शोभिपरस देवर्मुन गयर्देवोक इवापर है स किंपुरगीत